श्रीहरये नमः अथ पञ्चदशोऽध्यायः श्रीशुक उवाच भरतस्यात्मजसुमर्तिना अभिहितो यमुखभावके चेत् अनुवर्तमानं च अनार्य स मां नाधां देवतां स्वमनीषयां पापीयस्य कलौ कल्पयिष्यन्ति तस्माद् वृद्धसेनायां देवदाजिन्नामपुत्रोऽभवत् अतः सूर्यां तत्तनयो देवद्युन्नस्ततो धेनुमध्यां सुतः परमेष्टि तस्य सुवर्चलाया, प्रतीह उपजातः य आत्मविद्यामाख्याय स्वयं संशुद्धो महापुरुषमनुसस्मार प्रतीह सुवर्चलायां प्रतिहर्ध्रातयस्त्रय आसन् इ कोविथा सुनव प्रतिहर्तुस्तुत्याम् अजभूमाना वजनिषाथां भूम्नऋषिकुल्याय मुद्गीतस्तथ प्रस्तावो देवकुल्यायां प्रस्तावा विभुर्विभोरत्यां च पृतुष्येणस्तस्मान्नक्त आहूत्यां जज्ञे नग्धा धृतिपुत्रो गयो राजशिप्रवर उधारश्रवा अजायत साक्षाद्भगवतो विष्णोर्जकत्रिरशिशया गृहीत सत्त्वस्य कलामवद्वा लक्षणेन महापुरुषतां प्राप्तः सभैः स्वधर्मेण प्रजापालन पोषणप्रीणमुपलालननुशासनलक्षेण इत्यादिता च भगवते महापुरुषे परावरे ब्रह्मणि सर्वात्मना अर्पित परमार्थलक्षणेन ब्रह्म विच्चराणो सेवया आभातित भगवद्भक्तियोगेन च अभीक्ष्णसः परिभावित अतिशुद्धमतीम् उपरतानात्म्य आत्मनि स्वयमुपलभ्यमान ब्रह्मात्मा अनुभवोऽभि निरभिमान एवावनिम् अजुगोभन् तस्येमां गातां पाण्डवेय पुराविध उभगायन्ति गयं नृपखः प्रतियाति कर्म यज्वाभिमानि बहुविद्धर्मगुप्ता समागतश्री सद सत्पतिः सता सत्सेवकोन्यो भगवत्कलामृते यमभ्यषिञ्चन् परयामुदा यस्य प्रजानां धुतुहे धराशिषो निराशिषो गुणवत्स स्नुतो दाः छन्दांसि अकामस्य चयस्य कामान् धुतुः आजह्र आतो भलिं नृपाः प्रत्यञ्चिता युधिधर्मेण विप्रा यथा शिशां षट्टमं सम्परेत्य यस्याध्वरे भगवान् अध्वरात्मा मघोनिमात्युरुसोमपि ते श्रद्धा विशुद्धा चलभक्तियोग समर्पिदेच्या पलमाजहार यत्प्रीणाद्बर्हिषिदेवतिर्यङ् मनुष्यवीरोद्रमाणाविरिञ्चात् प्रीयेत सत्यप्सखविश्व जीव प्रेतस्वयं प्रीतिमगाद् गयस्य गयाद् गयन्त्याञ्चित्ररथ सुगतिरवरोधन इति पुत्रा बभूवुच्चित्ररतात् ऊर्णायां सम्राट् अजनिष्ठ तत उत्कलायां मरीचिमरीचेर्बिन्दुमत्यां बिन्दुमानुदपद् यत तस्मात् सरघायां मधुर्नाम भवेन् मधोसु प्रतस्ततो भोजायां मन्तु प्रमन्तु ज्ञाते मन्तोऽसत्या भौवनस्ततो दूषणायां त्वष्टा जनिष्ठ त्वष्टोर्विरोचनायां विरजो विरजस्य स प्रवरं पुत्रसतं कन्या विशुच्यां किल जातं तत्रायं श्लोकः प्रैह्यं व्रतं वंशमिमं सचरमोद्भवः अकरोधत्यलं कीर्त्या विष्णुः सुरगणं यथा इति श्रीभागवते महापुराणे पञ्चमस्कन्ते प्रियव्रतवंसानुकीर्तनं नाम पञ्चदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथमहाराज के जय